तस्यास्तीरे भगवतः काश्यपस्य महात्मनः आश्रम प्रवरम् रम्यम् महर्षिगणसेवितम् नदीमाश्रम सम्बद्धाम् दृष्ट्वाश्रमपदम् तथा चकाराभिप्रवेशाय मतिम् सन्नृपतिस्तदा अलङ्कृतम् त्वीपवत्या मालिन्या रम्यतीरया नरनारायणस्थानम् गङ्ग एवोपशोभितम् तत्स चैत्र रथप्रख्यम् समुपेत्य अतीव गुण सम्पन्नम निर्देश्यञ्च वर्चसा महर्षि काश्यपम् द्रष्टुमथ कण्वम् तपोधनम् ध्वजिनीमश्व सम्बाधाम् पदाति गज सङ्कुलाम् अवस्थाप्य मुनिम् विरजसम् द्रष्टुम् गमिष्यामि तपोधनम् मम तद्वनम् नन्दन प्रख्यमासाद्य मनुजेश्वरः क्षुत्पिपासे जहौ पुरोहितसहायश्च जगामाश्रममुक्तमम् दिदृक्षुस्तत्र तमरुषिम् तपोराशिमथा व्ययम् ब्रह्म लोक प्रतीकाशमाश्रमम् सोऽभिवीक्ष्यः षट्पदोद्गीत सङ्घुष्टम् नानाद्विजगणायुतम् रुचो कर्मसु यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम् मधुरैः साम गीतैश्च ऋषिभिर्नियतव्रतैः यतात्मभिः सुनियतैः शिशुभे स तदाश्रमः अथर्ववेद प्रवराः पूग यज्ञेय सामगाः संहितामीरयन्ति स्म पदक्रमयुताम् तु शब्द संस्कार संयुक्तैर्ब्रुवाद्भिश्चापरैर्द्विजैः नादितः सबभौ श्रीमान् ब्रह्म लोकैवापरः यज्ञसंस्तरविद्भिश्च क्रमशिक्षा विशारदैः नानावाक्यसमाहार समवाय विशारदैः विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः स्थापनाक्षेप सिद्धान्त परमार्थज्ञताङ्कतैः शब्दच्छन्दो निरुक्तज्ञैः कालज्ञानविशारदैः द्रव्यकर्म गुणज्ञैश्च कार्यकारणवेदिभिः पक्षिवानर ऋतज्ञैश्च व्यासग्रन्थ समाश्रितैः नानाशास्त्रेषु मुख्यैश्च शुश्रावस्वनमीरितम् लोकायतिक मुख्यैश्च समन्तादनुनादितम् तत्र तत्र च विप्रेन्द्रान् नियतान् संशित व्रतान् जप होमपरान् विप्रान्त दर्श परवीरः आसनानि विचित्राणि रुचिराणि महापतिः प्रयत्नोपहितानि स्म विस्मयमागमत विस्मयमागमत् देवता यतनानाञ्च प्रेक्ष्य पूजाम् कृताम् द्विजैः ब्रह्म लोकस्थमात्मानम् शुभम् नातृप्यत्प्रेक्षमाणो वै स काश्यपस्यायतनम् महाव्रतैर्वृतम् समन्ताद् दृष्टिभिः स्तपो धनैः विवेश सामात्य पुरोहितोरिहा विविक्तमत्यर्थ मनोहरम् शुभम् इति श्री महाभारते आदि पर्वणि सम्भव पर्वणि शकुन्तलोपाख्याने सप्तति